नारदपुराणम् पूर्वार्थम् अध्यायम् सिक्स् सूत उवाच भगवद्भक्तिमाहात्म्यं श्रुत्वा प्रीतस्तु नारदः पुनः पप्रसनकम् ज्ञानविज्ञानपारकम् नारद उवाच क्षेत्राणामुत्तमं क्षेत्रम् तीर्थानां च तथोत्तमम् परया दयया तथवम् ब्रूहिं शास्त्रार्थपारग सनक उवाच शृणु ब्रह्मन्तरं गुह्यं सर्वसम्पत्करं परम् दुःस्वन्पनाशनं पुण्यं दुःस्वप्ननाशनं पुण्यम् धर्म्यं पापहरं शुभम् श्रोतव्यं मुनिभिर्नित्यं दुष्टग्रहनिवारणं सर्वरोगप्रशमनमायोर्वर्धनकारणम् क्षेत्राणामुत्तमं क्षेत्रं तीर्थानां च तथोत्तमं गङ्गायमुनयोर्योगं वदन्ति परमर्षयः हितासितोदकं तीर्थं ब्रह्माद्याः सर्वदेवताः मुनयो मनवश्चैव सेवन्दे पुण्यकाङ्क्षिणः गङ्गापुण्यनदीज्ञेया यदो विष्णुपतोद्भवा रविजा यमुना ब्रह्मं स्तयो योगशुभावहः स्मृतार्थिनाशिनी गङ्गा नदीनां प्रवरामुने सर्वपापक्षयकरी सर्वोपद्रवनाशिनी यानि पुन्यानि पुण्यानि समुद्रान्ते महीतले तेषां पुण्यतमं ज्ञेयं प्रयागाख्यं महामुने इयाज वेधायज्ञेन यत्र देवं रमापदिं तथैव मुनयः सर्वे चक्रश्च विविधान्मखान् सर्वतीर्थाभिषेकाणि यानि पुन्यानितानि तानि वै गङ्गाबिन्दु अभिषेकस्य कलां नार्हन्दिषोडशीम् गङ्गा गङ्गा येदि यो ब्रूयाद्योजनानां सदेष्ठितः सोऽपि मुच्येत पापेभ्यः किमु गङ्गाभिषेकवान् विष्णुपादोद्भवादेवी विश्वेश्वरशिरस्थिता संसेव्या मुनिभिर्देव किं पुनः सैकतं ललाडे दुद्ध्रियते मनुजोत्तमैः तत्रैव नेत्रम् विज्ञेयम् विध्यर्थाद्धः समुज्ज्वलत यन्मज्जनं महापुण्यम् दुर्लभम् त्रिदिवौकसां सारूप्यदायकम् विष्णो किमस्मात् कथ्यते परम् यत्र स्नाताः पापिनोऽपि सर्वपापविवर्जिताः महद्विमानमारूढाः प्रयान्ति परमम् पदम् यत्र स्नात्वा महात्मानः पितृमातृकुलानि वै सहस्राणि समुद्धृत्य विष्णुलोके व्रचन्ति वै स स्नादः सर्वतीर्थेषु यो गङ्गां स्मरदि द्विज पुण्यक्षेत्रेषु सर्वेषु स्थितवान्नात्र संशयः यत्र नरं दृष्ट्वा पापोऽपि स्वर्गभूमिपाकमदङ्गस्पर्शे मात्रेण देवानामाधिपो भवेत तुलसीमूलसम्भूदाद्विजपादोद्भवात् तथा गङ्गोद्भवादु मृल्लोकान् नयत्यच्युतरूपताम् गङ्गा च तुलसी, तुलसी चैव हरिभक्तिरच्जला अत्यन्तदुर्लभा नृणाम् भक्तिर्धर्मप्रवक्तरि सद्धर्मवक्तुः पदः सम्भवाम् मृदम् गङ्गोद्भवाम् चैव तथा तुलस्याः मूलोद्भवाम् भक्तियुतो मनुष्यो धृत्वा शिरस्येदिपदम् च विष्णोः कदा यास्याम्यहं गङ्गां कदा पश्यामि तामहं वाञ्छत्यपि च यो ह्येवं विष्णुपदं व्रजेत गङ्गाया महिमां ब्रह्मन्वक्तुं वर्षशतैरपि नशक्यदे शक्यते विष्णु नापि किमन्यायुभाषितैः अहो मायाजगत् सर्वम् मोहयत्येतदद्भुतम् यदो वै नरकं यान्ति गङ्गानाम् निस्थिदेभिः संसारदुःखविच्छेदि गङ्गानामप्रकीर्तितं तथा तुलस्य भक्रिश्च हरिकीर्तिप्रवक्त सहृदप्युच्चरेद्यस्तु गङ्गेत्येवाक्षरद्वयं सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति योजनत्रितयं यस्तु गङ्गायामधिगच्छति सर्वपापविनिर्मुक्तसूर्यलोकं समेधिः सेयं गङ्गामहापुण्या नदी भक्र्या निषेविदा मेष तौलि मृगार्केषु पावयत्यखिलं जगद गोदावरी भीमरधी कृष्णा रेवा सरस्वती तुङ्गभद्रा च कावेरी कालिंदी बहुधा तथा वेत्रवदी ताम्रपर्णी सरयुश्च द्विजोत्तम एवमादिषु तीर्थेषु गङ्गामुख्यतमा स्मृता यथा सर्वगतो विष्णुर्जगद्व्याप्य प्रतिष्ठितः तथेयं व्यापिनी गंगा सर्वपापप्रणाशिनी अहो गंगा जगद्धात्री स्नानपानादिभिर्जगद पुनादिपनीत्येषा न कथं सेव्यते नृभिः तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमं वाराणसीदिविख्यातं सर्वदेवनिषेवितं ते एवश्रवणे धन्ये संविधादे बहुश्रुतम् इहश्रुतिमदां पुंसां काशीयाम्भ्यां श्रुदा सकृत येयं यं स्मरन्ति संस्थानमविमुक्तं द्विजोत्तमं निर्धूत सर्वपापास्ते शिवलोकं व्रचन्ति योजनानां शतस्थोऽपि अविमुक्तं स्मरेद्यदि बहुपादकपूर्णोऽपि पदं गच्छत्यनामयम् प्राणुप्रयाणसमये प्राणप्रयाणसमये योऽविमुक्तं स्मरेद्विज सोऽपि पापविनिर्मुक्तशैवं पदमवाप्नुयाद काशीस्मरणजम्पुण्यम् भुक्त्वा स्वर्गे तदन्तदः पृथिव्या मेकराड् भूत्वा काशीम् प्राप्य च मुक्तिभाक् बहुनात्र किमुक्तेन वाराणस्या गुणान्प्रति नामापि गृह्णाताम् काश्याश्च दुर्वर्गो न दूरतः गङ्गायमुनयोर्योगोऽधिगकाश्या अपि द्विज यस्य दर्शनमात्रेण नरा यान्ति परां गतिम् मकरस्तेरवौ गङ्गा यत्र कुत्र अवगाहिता पुनादिष्णानपानाद्यैर्नयन्दीन्द्रपुरं जगद यो गङ्गां नित्यं शङ्करो लोकशङ्करः लिङ्गरूपी कथं तस्या महिमा परिकीर्त्यते हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः ईषदप्यन्तरं नास्ति भेदकृच्चनयो कुधीः अनादिनिधने देवे हरिशङ्करसंज्ञिते अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः यो देवो जगदामीश कारणानां च कारणं युगान्धे निगदन्ध्ये द्रुद्ररूपधरो हरिः रुद्रो वै विष्णुरूपेण पालयत्यखिलं जगद ब्रह्मरूपेण सृजति प्रान्तेख्येदत्रयम् हरि हरिशङ्करयोर्मध्ये ब्रह्मणश्चापि यो नरः भेदं करोति सोभ्येदि नरकम् भृषदारुणम् हरं हरिम् विधातारं, यः पश्यत्येकरूपिणम् सयादि परमानन्दम् शास्त्राणामेष निश्चयः योऽसावनादिसर्वज्ञो जगदामादिकृद्विभुः नित्यम् सन्निहितस्तत्र लिङ्गरूपी जनार्दनः काशीविश्वेश्वरम् लिङ्गम् ज्योतिर्लिङ्गम् तदुच्यते तं दृष्ट्वा परमं ज्योतिराप्नोति दि मनुजोत्तमः काशीप्रदक्षिणा येन कृता त्रैलोक्यपावनी सतद्वीपासाब्धिशैला भूः परिक्रमिदामुना दादु मृद्दारपाषाणलेख्याद्यामूर्तयो मलाः शिवस्य वा शिवतस्यापि तासु संनिहितो हरिः तुलसीकाननं यत्र यत्र पत्मवन्नं द्विजा पुराणपठनं यत्र यत्र संनिहितो हरिः पुराणसंहिता वक्दा हरित्यभिधीयते हरि तद्भक्तिम् कुर्वताम् नृणाम् गंगास्नानं दिने दिने भक्तिर् पुराणश्रवणे भक्तिर्गङ्गास्नानसमाद्विजाः तद्वक्त्री चया भक्तिः साप्रया गोपमा स्मृता पुराणधर्मकथनैर्यत्समुद्धरदे जगद संसारसागरे मग्नं स हरिः परिकीर्तितः नास्ति गङ्गासमं तीर्थं नास्ति माधृसमो गुरुः नास्ति विष्णुसमं दैवं नास्ति तत्त्वं गुरोः परं वर्णानां ब्राह्मणश्रेष्ठस्तारकाणां यथा यथा पयोधिसिन्धूनां तथा गंगा परास्मृता नास्ति शान्तिसमो बन्धुर्नास्ति सत्यात् परं तपः नास्ति, नास्ति मोक्षात्परो लाभो नास्ति गङ्गासमानदी गङ्गायाः परमं नाम पापारण्यधवनलः भवव्याधिहरा गङ्गा तस्मात्सेव्या प्रयत्नतः गायत्रीजाह्नवी चोभे सर्वपापहरे स्मृते ये तयोर्भक्तिहीनो यस्तं विद्यात् पदिदं द्विज गायत्री मादालोकस्य मादा जाह्नवी उभेदे सर्वपानां नाश्च कारणदां गदे यस्य प्रसन्ना गायत्री तस्य गङ्गा प्रसीदति विष्णुशक्तियुदे ते द्वे समकामप्रसीद्धदे धर्मार्थकामरूपाणां फलरूपे निरञ्जने सर्वलोकानुग्रहार्थं दे महोत्तमे अतीव दुर्लभा नृणां गायत्री जाह्नवी तथा तथैव तुलसीभक्तिर्हरिभक्तिश्च सात्विकी अहो गङ्गामहाभागा स्मृता पापप्रणाशिनी हरिलोकप्रदा दृष्टा पीदा सारूप्यदायिनी यत्र स्नादा नर यान्ति विष्णोः पदमनुत्तमं नारायणो जगद्धादा वासुदेवः सनातनः गङ्गास्नानपराणां तु वाञ्छितार्थफलप्रदः गङ्गाजलकणेनापि यत्सि कृतो मनुजोत्तमः सर्वपापविनिर्मुक्तः प्रयाति परमं पदं सेवनादेव सगरान्वयसम्भवः विसृज्य राक्षसम्भवं सम्प्राप्तः परमं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गंगा गङ्गामाहात्म्यं नाम षष्ठोऽध्यायः ओम्